नारदपुराणं पूर्वार्थम् अध्यायं फर्टि टु श्रीनारद उवाच कुतसृष्टमिदं ब्रह्मञ्जगस्तावरजङ्गमं प्रलये च कमभ्येदि तन्मे ब्रूहि सनन्दन ससागरः सगगनः सशैलः स भूमिस्साग्निपवनो लोकोऽयं केन निर्मितः कथं सृष्ठानि भूतानि कथं वर्णविभक्तयः शौचाशौचं कथं तेषां धर्माधर्मविधिक् कथं कीदृशो जीवतां जीवक्व वा गच्छन्ति ये मृताः अस्माल्लोकादमुं लोकं सर्वं शंसन्तु मे भवान् सनन्दन उवाच शृणुमारदवक्ष्यामि चेतिहासं पुरातनं भृगुणाभिहितं शास्त्रं भरद्वाजाय पृच्छते कैलासशिखरे दृष्ट्वा दीप्यमानं महौजसं ब्रगु महर्षिमासीनं भरद्वाजोऽन्वपृच्छत भरद्वाज उवाच कथं जीवो विचरदि नानायोनिषु सन्ततं कथमुक्तिश्च संसारा जायते तस्य मानदः यश्च नारायणस्रष्टा स्वयंभू भगवन् स्वयम् सेव्यसेवकभावेन वर्तेदे इति तौ सदा प्रविशन्तिलये सर्वे यमीशं सचराचराः लोकानां रमणसोऽयं निर्गुणश्च निरञ्जनः अनिर्दस्यो प्रतर्क्यश्च कथं ज्ञायेदकैर्मुने कथमेनं परात्मानं कालशक्तिदुरन्वयम् अदर्क्यचरितं वेदास्तु वन्ति कथमादराद् जीवो जीवत्वमुल्लङ्घ्य कथं ब्रह्मसमन्वयात् यददिच्छाम्यसं श्रोतुं तन्मे ब्रूहि कृपानिथे एवं स भगवान् पृष्ठो भरद्वाजेन संशयं महर्षिर्ब्रह्मसङ्काश्य सर्वं तस्मै ततोऽब्रवीद भृगुरुवाच मानसो नाम यः पूर्वो विसृतो वै महर्षिभिः अनादिनिधनो देवस्तथा तेभ्यो जरामरः अव्यक्र इदि विख्यातशाश्वतोक्षयोऽव्ययः यतसृष्टानि भूतानि जायन्ते च म्रियन्ति च सोमृजत्प्रथमं देवो महांदं नाम नामतः आकाशमिति विख्यातं सर्वभूतधरः प्रभुः आकाशाद्भवद्वारिसलिलादग्निमारुतौ अग्निमारुदः संयोगात् तदः समभवन्मही तदस्तेजोमयं दिव्यं पद्मं सृष्ठं स्वयंभुवा तस्मात् पद्मात् समभवद्ब्रह्मा वेदमयो विधिः अकङ्कार इदिख्याद ख्यात सर्वभूतात्मभूतकृतब्रह्मा वै स महातेजा येते ये पञ्चधादवः शैलास्तस्यास्ति सङ्खास्तु मेदोमांसं च मेदिनी समुद्रास्तस्य रुधिरमाकाशमुदरं तथा पवनश्चैव निश्वासस्तेजोऽग्निर्निम्नगाः शिराः अग्निसोमौ चन्द्रार्कौ नयने तस्य विश्रुते नभश्चोध्वशिरस्तस्य क्षिदिपादौ भुजौ दिशः दुर्विज्ञेयो ह्यचिन्त्यात्मा सिद्धै न संशयः स एष भगवान् विष्णुरनन्द इति विश्रुतः सर्वभूतात्मभूतस्थो दुर्विज्ञेयो कृतात्मभिः अहङ्कारस्य यः स्रष्टा सर्वभूतभवाय वै यदिह त्वया भरद्वाज उवाच गगनस्य दिशां चैव भूतलस्यानिलस्य च कान्यत्र परिमाणानि संशयं चिन्तितत्वतः भृगुरुवाच अनन्दमेतदाकाशं सिद्धदैवतसेवितम् रम्यं नानाश्रयाकीर्णं यस्यां तो नाधिगम्यते ऊर्ध्वं गते रथस्ता तु चन्द्रादित्यौ न तत्र देवः स्वयं दीप्ता भास्करा ते चाप्यन्तं न पश्यन्ति नभः प्रथितौ जसः दुर्गमत्वादनन्तत्वादि मे वदमानद उपरिष्ठोपरिष्ठात्तु प्रज्वलद्भिः स्वयं प्रभैः निरुद्धमे ददाकाशं ह्यप्रमेयं सुरैरपि पृथिव्यन्दे समुद्रास्तु समुद्रांते तमस्मृतं तमः जलं प्राहुर, का का जलं प्राहुर्जलस्यान्दे अग्निरेव रसा रसालान्दे सलिलं जलान्दे पन्नगाधिपाः तदन्ते पुनराकाशमाकाशान्ते पुनर्जलम् ेवमन्दं भगवदप्रमाणं सलिलस्य च अग्निमारुदतोयेभ्यो दुर्ज्ञेयं दैवतैरपि अग्निमारुदतोयानां वर्णाक्षितितलस्य च आकाश्य सदृशाह्यदे विद्यन्ते तत्वदर्शनाद। पठन्ति चैव मुनयशास्त्रेषु विविधेषु च त्रैलोक्ये सागरे चैव प्रमाणं विहितं यथा अदृश्यो यस्त्वगम्यो यः कक् प्रमाणमुदीरयेत् सिद्धानां देवतानां च परिमीता यथा गतिः तदा गण्यमनं तस्य नामानं तेदि विश्रुतं नामध्येयानुरूपस्य मानसस्य महात्मनः यदा तु दिव्यं यद्रूपं ह्रस्सदे वर्धते पुनः कोण्यस्तद्वेदितुं शक्यो तद्विधो स्यात्तद्विद्धोऽपरः ततः पुष्करतसृष्टः सर्वज्ञो मूर्तिमान् प्रभुः ब्रह्मा धर्ममयपूर्वप्रजापतिरनुत्तमः भरद्वाज उवाच पुष्करो यदि सम्भूतो ज्येष्ठम् भवति पुष्करम् ब्रह्माणम् पूर्वजं चाह भवान् सन्देह ेवमे भृगुरुवाच मानसस्येक या मूर्तिर्ब्रह्मत्वम् समुपागता तस्याः स न विधानार्थं पृथिवी पद्ममुच्यते कर्णिकातस्य पद्मस्य मेरुर्गगनमुच्छ्रितः तस्य मध्ये स्थितो लोकान् सृजत्येष जगद्विधिः भरद्वाज उवाच प्रजाविसर्गं विविधं कथं स सृजति प्रभुः मेरुमध्ये स्थितो ब्रह्मा तद्बहिर्द्विजसत्तम भृगुरुवाच प्रजाविसर्गं विविधं मानसो मनसा सृजद संरक्षणार्थं भूतानां सृष्ठं प्रथमदो जलं यत्प्राणाः सर्वभूतानां सृष्ठं प्रथमदो जलं यत्प्राणाः सर्वभूतानां वर्धन्ते येन च प्रजाः परित्यक्ताश्च नश्यन्ति तेनेदम् सर्वमावृतम् पृथिवी पर्वदामेका मूर्तिमंतश्च परे सर्वम् तद्वारुणम् ज्ञेय मापस्तम्भिरे पुनः भरद्वाज उवाच कथम् सलिलमुत्पन्नम् कथम् चैवाग्निमारुतौ कथं वा मेदिनी सृष्टेत्यत्र मे संशयो महान् भृगुरुवाच ब्रह्मकल्पे पुरा ब्रह्मन् ब्रह्मर्षीणां समागमे लोकसम्भवसन्देहसमुत्पन्नो महात्मनाम् ते तिष्ठन् ध्यानमालम्ब्य मौनमास्ताय निश्चलाः त्यग्राहारा दिव्यं वर्षशतं द्विजाः तेषां ब्रह्ममयी वाणी सर्वेषां श्रोत्रमागमद दिव्या सरस्वती तत्र सम्बभूव नभस्तलाद पुरास्तिमितमाकाशमनं तमचलोपमं नष्टचन्द्रार्कपवनं प्रसुप्तमिव स बभौ सम्बभौ तदसलिलमुत्पन्नं तमसीव तमः यथा भवनमच्छिद्रं निःशब्दमिव लक्ष्यते तच्चाम्भसा पूर्यमाणं सशब्दं कुरुते निलः तथा सलिलसंहृधे नभः सों तं निरन्तरे भित्त्वार्नवतलं वायुसमुत्पतति कोषवान् येषु वाचरदे वायुरर्णवोत्पीडसम्भवः आकाशस्थानमासाद्य प्रशान्तिम् नाधिगच्छति तस्मिन्वायु अम्बु सङ्घर्षे दीप्तते जो महाबलः प्रादुरासीदूर्ध्वशिखकृत्वा निस्तिमिरन्तमः अग्निपवनसं युक्तकं समाक्षिपदे जलं तदग्निवायुसम्पर्काद्धनत्वमुपपद्यते तस्याकाशं निपतितत्स्नेहात्तिष्ठति यो परः सङ्खातत्त्वमापन्नो भूमित्वमनुगच्छति रसानां सर्वगन्धानां स्नेहानां प्राणिनां तथा भूमिर्योनिरियं ज्ञेया यस्य सर्वं प्रसूयते भरद्वाज उवाच येदे धाधवः पञ्चरक्ष्याया न सृजत्प्रभुः आवृता यैरिमे लोका महाभूताभिसंज्ञैः यदा सृजत्सहस्राणि भूतानां स महामतिः पश्चात्तेष्वेव भूतत्वं कथं समुपपद्यते भृगुरुवच अमितानि महाष्टानि यान्ति भूतानि सम्भवम् अधस्तेषां महाभूतशब्दोऽयमुपपद्यते चेष्टा वायुःखमाकाशमूष्माग्निःसलिलं द्रवः पृथिवी चात्रसङ्घातशरीरं पाञ्चभौतिकम् इत्यध पञ्चभिर्युक्तयुर्युक्तम् स्थावरजङ्गमं श्रोत्रे क्राणो रसस्पर्शो दृष्टिश्चेन्द्रियसंज्ञताः भरद्वाज उवाच पञ्चभिर्यदिभूतैस्तु युक्तास्तावरजङ्गमाः स्थावराणां न दृश्यन्ते शरीरे पञ्चधातवः अनूष्मणामचेष्टानां खनानां चैव तत्त्वदः वृक्षाणां नोपलभ्यन्ते शरीरे पञ्चधातवः न शृण्वन्ति न पश्यन्ति न गन्धरसवेदिनः न च स्पर्शं हि जानन्ति ते कथं पञ्चधातवः अद्रवत्वादनग्नित्वाद्भूमित्वादवायुधः आकाशस्याप्रमेयत्वाद्वृक्षाणां नास्ति भौतिकम् भृगुरुवाज खनामपि वृक्षाणामाकाशोऽस्ति न संशयः तेषां पुष्पफलव्यक्रिर्नित्यं समुपपद्यते उष्मदो म्लायते पर्णं त्वग्फलं पुष्पमेव च म्लायदे शीर्यते च विस्पर्शस्त्रेनात्र विद्यते वायुवाग्न्या शनि निर्घोषैः फलं पुष्पं विशीर्यते श्रोत्रेण गृह्यते शब्दस्तस्माच्छृण्वन्ति पादपाः वल्लीवेष्ट यदे वृक्षान् सर्वतश्चैव गच्छति न ह्य दृष्टश्च मार्गोऽस्ति तस्मात् पश्यन्ति पादपाः पुण्यापुण्यैस्तथा गन्धैर्धूपैश्च विविधैरपि अरोगाः पुष्पिताः सन्ति तस्माज्जिघ्रन्तिपादपाः सुखदुःखयोर्ग्रहणाच्छिन्नस्य च विरोहणाद् जीवं पश्यामि वृक्षाणामचैतन्यं न विद्यते तेन तज्जलमादत्ते जरयत्यग्निमारुतौ आहारपरिणामाच्च स्नेहो वृद्धिश्च जायते जङ्गमानां च सर्वेषां शरीरे पञ्चधातवः प्रत्येकशप्रभिद्यन्ते यैः शरीरं विचेष्टते मांसं तथास्तीनिमज्जः स्नायुश्च पञ्चमः इत्येतदिह सङ्घातं शरीरे पृथिवीमये तेजोह्यग्निस्तथा क्रोधश्चक्षुरुष्मा तथैव च अग्निर्जनयधेयश्च पञ्चाग्नेयाशरीरिणः श्रोत्रं खणं तथास्यं च हृदयं कोष्ठमेव च आकाशात्प्राणिना मे दे शरीरे पञ्चधाधवः श्लेष्मापित्तमधस्वेदो वसा शोणिदमेव च इत्यापपञ्चधादेः भवन्ति प्राणिनां सदा प्राणाप्रीणयदे प्राणीव्यानाद्यायच्छदे तथा गच्छत्यपानोधश्चैव समानो ह्यद्यवस्थितः उदानादुच्छ्वसीदिति पञ्च भेदाच्च भाषते इत्येदेवायवः वा पञ्च वेष्टयन्तीह देहिनम् भूमेर्गन्धगुणान्वेति रसं चाभ्यशरीरवान् तस्य गन्धस्य वक्ष्यामि विस्तराभिहितान् गुणान् इष्टानुष्ठगन्धश्च मधुरकडुरेव च निर्हारिसंहदस्निग्धो रुक्षो विशतकेव च एवं न वविधो ज्ञेयः पार्थिवो गन्धविस्तरः द्योति पश्यति चक्षुभ्यः स्पर्शं वेत्ति च वायुना शब्दस्पर्शश्च रूपं च रस्सश्चापि गुणा स्मृताः तु वक्ष्यामि तन्मे निगदशृणु रसो बहुविधप्रोक्तऋषिभिः प्रथितात्मभिः मधुरो लवणस्थितः कषायो म्लकडुस्तथा षडिध विस्तारो रसो वारिमयस्मृतः शब्दस्पर्शश्च रूपश्च त्रिगुणं ज्योतिरुच्यते ज्योतिपश्यति रूपाणि रूपं च बहुधा ह्रस्वो दीर्घस्तथा स्थूलश्चदुरस्रोणुवृतवान् शुक्लकृष्णस्तथा रक्तो नीलपीदोरुणस्तथा मृदुदारुणः एवं षोडशविस्तारो तत्रैकगुणमाकाशं शब्द इत्येव तस्मृतं तस्य शब्दस्य वक्ष्यामि विस्तरं विविधात्मकं षड्जो ऋषभगान्धारौ मध्यमो दैवतस्तथा पञ्चमश्चापि विज्ञेयस्तथा चापि निषाधवान् येष सप्तविधप्रोक्तो गुण आकाशसम्भवः ऐश्वर्येण तु सर्वत्र स्थितोपि पयहादिषु मृदङ्गभेरीशङ्गानां स्तनयत्नो रथस्य च एवं बहुविधाकालशब्द आकाशसम्भवः वायव्यस्तु गुणस्पर्शस्पर्शश्च बहुधा स्मृतः उष्णशीदसुखं दुःखं स्निग्धो विशद एव च तद्ध मृदुश्लक्ष्मो लघुर्गुरुतरोऽपि च शब्दस्पर्शौ दुविज्ञेयौ द्विगुणौ एवमेकादशविधो वायव्यो गुण आकाशतं शब्दमाहुरेभिर्वायुगुणैः सह अव्याहतैश्चेदयते न वेदिविषमागतिः आप्यायन्ते च ते नित्यं धातवस्तैस्तु धातुभिः आपोऽग्निर्मारुश्चैव नित्यं जाग्रदिदेहिषु मूलमेदे शरीरस्य व्याप्य प्राणानिहस्थिताः पार्थिवम् धातुमासाद्य यथा चेष्टयदे बली श्रुतो मूर्धानमग्निस्तु शरीरम् परिपालयेद प्राणो मूर्धनि वाग्नौ च वर्तमानो विचेष्टते स जन्दु सर्वभूदात्मा पुरुषः सनातनः मनो बुद्धिरहङ्कारो भूतानि विषयश्च सह एवं द्विहस सर्वत्र प्राणैस्तु परिपाल्यते पृष्टतस्तु समानेन स्वां स्वां गतिमुपाश्रितः वस्तिमूलं गुदं चैव पावकं समुपाश्रितः वहन्मूत्रं पुरीशं वाप्यपान परिवर्तते प्रयत्ने कर्मनियमे य एकस्त्रिषु वर्तते उदान इदि तं प्राहोर् अध्यात्मज्ञानकोविदाः सन्धिष्वपि च सर्वेषु सन्निविष्टस्तथानिलः शरीरेषु मनुष्याणां ज्ञान इत्युपदिश्यते बाहुष्वग्निस्तु विततः समानेन समीरिदः रसान्वारुदोषांश्च वर्तयन्नदिचेष्टते अपानप्राणयोर्मध्ये प्राणापानसमीहितः समन्वितस्त्वधिष्ठानं सम्यक् पचति पावकः आस् पंहि पायुपर्यन्तमन्ते स्याद्गुतसंज्ञिते रेदस्तस्मात् प्रजायन्ते दे सर्वस्रोतांसि देहिनां प्राणानां सन्निपादाश्च सन्निपादप्रजायते ऊष्माच्चाग्निरिति ज्ञेयो यौन्नं पचति देहिनां अग्नि अग्निवेगवहप्राणो गुदान्ते प्रदिहन्यदे स ऊर्ध्वमागम्य पुनः समुत्क्षिपति पावकं पक्वाश्रयस्त्वधो नाभ्या ऊर्ध्व नाभिमूले शरीरस्य सर्वे प्राणाश्च संस्थिताः प्रस्थिता हृदया सर्वे तिर्यगूर्धमधस्तथा वहन्त्यन्नरसान्नाढ्यो दशप्राणप्रचोदिताः येष मार्गोऽपि योगानां येन गच्छन्ति तत्पदं जितक्लमा समाधीरा मूर्धन्यात्मानमादधन् येवं सर्वेषु विहितप्राणापानेषु देहिनां तस्मिन् समिध्यते नित्यमग्निस्ताल्यामिवाहिदः इति श्रीभृकन्नारदीयपुराणे पूर्वभागे द्वितीयभागे भृगुभरद्वाजसंवादे जगदुत्पत्तिवर्णनं नाम द्विचत्वारिंशोऽध्यायः ॐ